श्रीमद्भागवत्महापुराणं दसंस्कन्ध अथ त्रयोविंशोऽध्यायः परकृपा गोपा उचुः राम राम महावीर्यकृष्णदुष्टनिवर्हण एषा वै बाधते क्षुन्नन् तच्छान्तिं कर्तुमर्हत श्रीशुकुवाच इति विज्ञापितो गोपैर्भगवान् देवकीसुतः भक्ताया विप्रभार्याया प्रसीदन्निदमब्रवीत् प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः सत्र माङ्गिरसं नाम हा ह्यासते स्वर्गकाम्ययां तत्र गत्वौ दनं गोपायाचतास्मद्विसर्जिताः कीर्तयन्तो भगवत आर्यस्य मम यत्या दृष्टा भगवता गत्वा याचन्त ते तथा पुटा विप्रान् दण्डवत्पतिता भवे हे भूमिदेवाशृणुत कृष्णस्यादेशकारिणः प्राप्ताञ्जानीत भद्रं वो गोपान् नो रामचोदितान् गाश्चार्यन्तावविदूरबोदनं रामाच्युतौ वो लसतो बुभुक्षितौ तयोर्द्विजा ओदनमर्थिनोर्यति श्रद्धा च वो यच्छत धर्मवित्तमाः दीक्षाया पशुसंस्थाया श्रोत्राम्याश्च अन्यत्र जिक्ति तस्यापि नान्नमश्चि दृश्यते यत् ते भगवद्यां चां शृण्वन्तोऽपि रुद्रासां भूरि कर्माणो बालिसा वृद्धमानिनः देशकालपृथक् द्रव्यं मन्त्रतन्त्रियोग्नयः देवता यजमानश्च क्रतुर्धर्मस्य जन्मयः तं ब्रह्मपरमं साक्षाद्भगवन्तम् अथोक्षजम् मनुष्यदृष्ट्या न ते यदोमिति प्रोचुर्ण नेति च परन्तप गोपानिराशा प्रत्येत्य तथोच कृष्णरामयोः तदुपाकर्णभगवान् प्रहस्य जगदीश्वरः व्याजहार पुनर्गोपान् दर्शयल्लौकिकीं गतिं मां व्यापयत्य पत्नीभ्य स संकर्षणमागतम् दास्यन्ति काममन्नं वा स्निग्धा गत्वाथ पत्नीशालायां दृष्ट्वा सीना स्वलङ्कृताः नत्वा दिसतीर्गोपाः प्रसृता इदमब्रुवन् नमो वेविं नमो वो वे विप्रपत्निभ्यो निबोधत वचांसिनः इतो विदूरे चरता कृष्णे नेहेशिता वयम् गाश्चार्यन् स गोपालये स रामो दूरमागतः भुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् श्रुत्वा च्युतमुपायातं नित्यं तद्दर्शनोत्सुकाः तत्कथाक्षिप्तमनसो तद बभूवुरुजात सम्भ्रमाः चतुर्विधं बहुगुणम् अन्नमादाय भाजनैः अभिशत्रु प्रियं सर्वा समुद्रम् इव निम्नगाः निषिध्यमाना पतितभिर्भ्रातृभिर्बन्धुभिः सुतैः भगवत्योत्तमश्लोके दीर्घस्रुतधिताशयाः यमनोपवने शोकन्नवपल्लवमण्डिते नितिरन्तमृतं गोपैः साग्रजं ददृशु श्रियः श्यामं हिरण्यपरिधिं वनमाल्यं बर्हधातु प्रवाल नटवेशमनुव्रतांसे विन्यस्तहस्तमितरेण अधुनानमब्जं कर्णं कर्णोत्पलालकपोलमुखाब्जहासं कप प्रायसुतप्रियतमोदयकर्णपूरै यस्मिन्मग्नमनसस्तमथाक्षिरन्ध्रै अन्तप्रवेश्य सुचिरं परिरभ्यतापं प्राव्यं यथाभिमतयो विजहुर्नरेन्द्र तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मादिदीक्षयां विद्यायाखिलदिग्द्रष्टा प्राहप्रहसीतानलः स्वागतं वो महाभागा आशतां करवाम यन्नोद्रेक्षया प्राप्ता उपपन्नमिदं हि वः नन्वद्धा मयि कुर्वन्ति कुशला स्वार्थदर्शनाः अहेतुक्यव्यवहितां भक्तिमात्मप्रिये यथा प्राणबुद्धिमनस्वात्मदारापत्यधनादयः यः सम्पर्कात् प्रिया आसन् ततः तदीयात् देवयजनं पतयो वो द्विजातयः स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेथिनः